यता प्रवाचक पुरुषोत्तम शर्मा आद मुख्य मीन प्रधानमंत्री नरेन्द्र मोदी चीनस्य से चिंगदावो नगरे शंघाई सहयोग संघटनस्य शिखरोपवेशने सुरक्षाया सम्पर्क सौविध्यस्य च महत्वं प्रतिपादितवान् जम्मूकश्मीरस्य क्पवाडा जनपदे केरलक्षेत्रे नियन्त्रणरेखां प्रुतो सैन्यबलेन षडातंकिन व्यापादिता ऋत्विज्ञानविभागेन उत्तरभारतस्य कतिपयक्षेत्रेष् धूलिपूर्णझंझावातस्य विद्युत्पातस्य चान्मानं प्रकटितमस्ति महिलानाम एशिया चषक क्रिकेट स्पर्धा मालिका न विजिता चीन प्रधानमन्त्री नरेन्द्रमोदी अद्य चीनस्य चिंगदावौ नगरे संघाई सहयोग संघटनोपवेशने प्रावोचत् यत् सुरक्षा संपर्क सौविध्यं च महत्वपूर्णे शिखरसम्मेलनस्य पूर्णसत्रं सम्बोधयता श्रीमोदिना आंग्लभाषाया सिक्यौर शब्दस्य परिभाषा सुरक्षा आर्थिक विस क्षेत्रीय सपर्क जनाक्य पर्यावरण संरक्षण चेती शिखर सम्मान सदस्य देश राष्ट्राध्यक्ष सीमित श्री मोदी अद कजाखस्ता कर्गीष्ट्रपतिभ्या संभाषण क्यों जम्मूकश्मीरस्य क्पवाडा जनपदे केरलक्षेत्रे नियन्त्रणरेखां पुरतः सैन्यबलेन अवैध प्रवेशनिरता षडातंकिन व्यापादिता रक्षाप्रवक्त्रा आकाशवाणी सूचिता यत् सीमापारतो सशस्त्रातंकिनाम् अवैध प्रवेशवारयित् सुरक्षाबलै कार्याचरणं प्रारब्धमासीत् यस्मिन् आतंकिन व्यापादिता केन्द्रीयमन्त्री अरुणजेटली उच्चतमन्यायालयस्य न्यायाधीशनियुक्तिविषये प्रशासनस्य संस्तृतौ कांप्रेसदलम् आलोचयत एकस्मिन् ब्लॉग इति अन्तर्जालसंदेशपटले श्रीजेटलिना प्रशासनस्य प्रस्तावपक्षे भूरि न्यायिकनियुक्तीनाम् उदाहरणानि प्रस्तुतानि अपि चोक्तं यत् न्यायिकघोषणामाध्यमेन न्यायालयद्वारा न्यायिकनियुक्तिष् कार्यपालिकाया भूमिकाया उपेक्षा बहुधा अभविष्यत अवधेयमस्ति यत् उत्तराखण्डोच्चन्यायालयस्य न्यायाधीशस्य कम् जोसफस्य उच्चतमन्यायालय न्यायाधीशरूप नियुक्तिप्रकरणमिदं वर्तता ऋत्विज्ञानविभाग दिल्ली मध्यप्रदर्श झारखण्ड छत्तीसगढ राज्यानि सम्य उत्तरभारतस्य कतिपयक्षि धूलिपूर्णझंझावातस्य वृष्टे विद्युत्पातस्य च पूर्वानुमानं संचेतितमस्ति ऋत्परिवर्तन अद्य नवदिल्ल्यां तापमाने नैयून्यं दिग्गोचरितम् आकाशवाण्या सह संभाषणे सम्भाषण ऋत्विज्ञानविभागस्य वरिष्ठाधिकारी कुलदीप श्रीवास्तव प्रावोचत् यत् अस्य मासस्य ऊनत्रिंशत् दिनांकं यावत् प्रावेट दिल्ल्यामागमिष्यतीति सम्भाव्यतार अमरिकाया राष्ट्रपतिना डॉनल्ड ट्रम्प सह शिखरवार्तायै उत्तरकोरियाया न किम जांग्ऊन सिंगाप्रनगरं सम्प्राप्त उभयो शिखरोपवेशनं मंगलवासरे सेंटोसादवीपे भविष्यति सम्भाव्यते यत् डॉनल्ड ट्रम्प अद्य सिंगापुरनगरं प्राप्स्यति रूसराष्ट्रपति व्लादिमीर पृतिन प्रावोचत् यत् अमेरिका शिखरवार्तायोजनाय सन्नद्व वर्तते चेत् अमेरिकाया राष्ट्रपतिना डॉनल्ड ट्रम्पेण सह मेलने तस्मै प्रसन्नता भविष्यति श्रीप्तिन चीनस्य चिंगदाओौ नगरे संघाई सहयोग संघटनोपवेशने सहभागावसरे वार्ताहरन संबोधयतिस्म। स्म महिलानां एशिया चषक क्रिकेट स्पर्धा बांग्लादेशेन विजिता मलेशियाया क्वालालम्पुरे निर्णायक स्पर्धायां बांग्लादेशेन भारतीयदलं पराजितम् देशचतुष्टयस्य अन्तर् महाद्वीपीय निर्णायकद्वन्द्व भारतीयदलं क्रिया वृन्दं सम्मुखीकरिष्यति स्पर्धि मुम्बय्यां भविष्यति रात्रौ अष्टवादनात् क्रीडि प्रारप्स्यत